नारायणीयं दशकं 54, फोर् मीटर् शालिनी त्वत्सेवोत्कः सौभरिर्नामपूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् मीनव्रादे स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षदाग्रे कदाचित् त्वद्वासं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिजक्षदं लक्षयन् सः तप्तश्चित्ते शप्तवानत्र जीवितं चापि मोक्ता तस्मिन् काले कालियः सर्पाराधे कल्पितं भागमश्नन् तेन भोजभाजा पक्षक्षिप्तस्तद्दुरापं प्रयोगात् पोरे तस्मिन् सूरजा निरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् पक्षिव्रादा प्रेदुरभ्रे पतन्धकारुण्यार्द्रं त्वन्मनस्तेन जातं काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा यादे यामुनं काननान्तं त्वय्युद्धामग्रीष्म भीष्मोष्म तप्ता गो गोपालाव्यापि बन्क्ष्वेलतोऽयम् नश्यजीवान्विच्युदान् क्ष्मातले विश्वान् पश्यन्नच्युतत्वम् दयार्द्रः प्राप्यो पान्दम् जीवयामासीद्राक् पियोशाम्भो वर्षेभिः श्रीकडाक्षैः किं किं जातो हर्षवर्षादिरेखसर्वाङ्गेष्वि ्युद्धिदा गोपशङ्खाः दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तस्त्वमालिङ्गन् दृष्टनानाप्रभावाः गावश्चैवं लब्धजीवाःक्षणेन सीदानन्तास्त्वां च दृष्ट्वा पुरस्ताद्रागावव्रुस् सर्वतो हर्षबाष्पं व्यामुञ्च्यो मन्दमुद्यन्निनादाः रोमाञ्चोऽयं सर्वतो नः शरीरे भू यस्य अन्धकाचिदानन्दमूर्च्छा आश्चर्योऽयं वन्दितो भूः एवं भक्तान्मुक्तजीवानपि त्वं मुग्धा पाङ्गैरस्तरोगांस्तनोषि कारुण्यभूमा रोगात्पाया वायुगेहाधिनाथ सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द